अथ द्विपञ्चाशः सर्गः धूमम् राक्षम् प्रेक्ष्य निर्यान्तम् राक्षसम् विने दुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः तेषाम् सुतुमुलम् युद्धम् सञ्जज्ञे कपि रक्षसा अन्योन्यम् पादपैर्घोरैर्निघ्नताम् शूलमुद्गरैः राक्षसैर्वानराघोरा विनिकृत्ताः समन्ततः वानरैराक्षसाश्चापि द्रुमैर्भूमि समीकृताः राक्षसास्त्वभि सङ्क्रुद्धा वानरा निशितैः शरैः विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ते गदाभिश्च भीमाभिः घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संश्रितैः विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः अमर्षजनितोद्धर्षाश्चक्रः कर्माण्यभीतवत् शरणिर्भिन्न गात्रास्ते शूलनिर्भिन्न देहिनः जगृहस्ते द्रुमांस्तत्र शिलाश्च ते भीमवेगा हरयो नर्दमानास्ततस्ततः ममो राक्षसान् वीरान्नामानि च बभाशिरे तद्बभूवाद्भुतम् घोरम् युद्धम् वानर रक्षसा शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः राक्षसामथिता केचिद् वानरैर्जितकाशिभिः प्रवेमोरुधिरम् केचिन्मुखैरुधिरभोजनाः पार्श्वेषु दारिताः केचित् केचिद्राशीकृताद्रुमैः शिलाभिश्चूर्णिताः केचित् केचिद्दन्तैर्विदारिताः ध्वजैर्विमथितैर्भग्नैः खड्गैश्च विनिपातितैः रथैर्विध्वंसितैः केचिव्यथितारजनीचराः गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वलौकसाम् मथितैर्वाजभिः कीर्णम् सारोहैर्वसुधातलम् वानरैर्भीमविक्रान्तैराप्लुत्योऽप्लुत्यवेगितैः राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिदारिताः विषण्णवदना भूयो विप्रकीर्णशिरोरुहाः मूढाः शोणितगन्धेन निपेतुर्धरणीतले अन्ये तु परमक्रुद्धा राक्षसाभिमविक्रमाः तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् वानरैः पादयन्तस्ते वेगिता वेगवत्तरैः मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः सैन्यम् त्वविद्रुतम् दृष्ट्वा धूम्राक्षो राक्षसर्षभः रोषेण कदनञ्चक्रे वानराणाम् युयुत्सता प्रासैः प्रवर्ताः केचिद्वानराः शोणितस्रवाः मुद्गरैराहताः केचित्पतिता धरणीतले वरिघैर्मथिताः केचिद्भिन्दिपालैश्च दारिताः पट्टिषैर्मथिताः केचिद्विह्वलन्तो गतासवः केचिद्विनिहता भूमौ रुधिरार्द्रावनौकसः केचिद्विद्राविता नष्टाः सङ्क्रुद्धैराक्षसैर्युधि विभिन्नहृदया केचिदेकपार्श्वे न शायिताः मन्दस्तनित गीतम् तद्युद्ध गान्धर्वमाबभौ धूम्राक्षस्तुधनुष्पाणिर्वाणरान् रणमूर्धनी हसन् विद्रावयामास दिशस्ताञ्छलवृष्टिभिः धूम्राक्षेणार्जितम् शिलाम् ताम् पातयामास धूम्राक्षस्य रथम् प्रति आपतन्तीम् शिलाम् दृष्ट्वा गदामुद्यम्य सम्भ्रमात् रथादाप्लुत्य वेगेन वसुधायाम् व्यतिष्ठता सा प्रमथ्य रथम् तस्य निपपातशिला भुवि स चक्रकूबरम् साश्वम् सध्वजं स शरासनम् स भङ् त्वा तु रथम् तस्य हनूमान् मारुतात्मजः रक्षसाम् कदनञ्चक्रे सस्कन्धमिटपैर्द्रुमैः विभिन्नशिरसो भूत्वा राक्षसारुधिरोक्षिताः द्रुमैः प्रमचिताश्चान्ये निपेतुर्धरणीतले विद्राव्यराक्षसंसैन्यम् हनूमान्मारुतात्मजः गिरेः शिखरमादाय धूम्राक्षमभिदु मापतन्तम् धूम्राक्षो वीर्यवान। विनर्दमानः सहसा हनूमन्तमभिद्रवत् तस्य क्रुद्धस्य रोषेण गदाम् ताम् बहुकण्टकाम् पातयामास धूम्राक्षो मस्तकेऽथ हनूमतः ताडितः स तया तत्र गदया भीमवेगया सखभिर्मारुतबलस्तम् प्रहारमचिन्तयन् धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गमपातयत् स विस्फारितसर्वाङ्गो गिरिशृङ्गेण ताडितः पपातसहसा भूमौ विकीर्ण इव पर्वतः धूम्राक्षम् निहतम् दृष्ट्वा हतशेषा निशाचराः त्रस्ताः प्रविविशर्लङ्काम् सतो तु पवनसुतो निहत्य शत्रून् क्षतजवः सरितश्च संविकीर्य रिपुवध जनितः श्रमो महात्मा मुदमगमत्कपिभिः सुपूज्यमानः इत्यादर्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः